अधनवमस्कन्धः वैवस्वतमनोः पुत्रसुद्युम्नो होदृदोषधः स्त्रीभूतो वासुदेवस्य कृपया पुरुषो भवद वनं प्रविश्य रुद्रेण शब्दं स्त्रीत्वं स्त्री पुंस्त्वं च पर्यायात् प्राप्य खिन्नो पृषध्रोगामज्ञानादवधीद्गुरोः तेन शब्दशूद्रभावं प्राप्य मुक्तस्मरन् हरिं मनोर्वंशे मरुत्तस्तु स्पर्धयेन्द्रेण योगिनः यज्ञं चक्रे निरुपमं संवर्तस्य प्रसाददः पुत्रीं सुकन्यां शर्यादिश्च्यवनाय ददौ भिया आक्षिप्येन्द्रमधाश्विभ्यां यज्ञे भागमदान्मुनिः परजिज्ञासया ब्रह्मलोकं सम्प्राप्य रैवतः रेवं बलरामाय ददौ काले बहौ गदे भागपितरं भागं लब्ध्वा तस्य प्रसादतः सर्वेश्वरानुग्रहेण सर्वां सम्पदमाप्तवान् अम्बरीशो भक्तवर्यो द्वादशी व्रतमाचरन् निर्निमित्तमधिक्षिप्तक्रोधातुर्वाससा भवद चक्रेणानुद्रुतं खिन्नं राजा दुर्वासम्मुनिं विनिर्मोच्य स्तुदस्तेन भगवत्पदमागमद विभुक्षिरिक्ष्वागु सुतश्राद्धार्धं शशमाहरन् भक्षणाधिकृधपित्रा शशाद इति शत्रोर्जयाय वहनादिन्द्रेण वृषरूपिण इन्द्रवाहकककुत्स्थश्च नाम्ना राजा बभूवः दुन्दोः संहरणा दुन्धुमार इत्यभिविश्रुतः राजा कुवलया श्वोभोद्ब्रह्मण्योद्धार्मिकप्रभुः युवनाश्यो मन्द्रजलप्राशनाद्गर्भमाप्तवान् निर्गमेऽपि शिशो कुक्षे स्वस्तो देवप्रसादतः मान्दा बलवानासीत् द्रावणादिभयङ्करः पञ्चाशब्दस्य पुत्र्यस्तु सौभरिं पदिमागमन् पत्नीश् शपुत्र सौभरीर्हरन्दा योगभ्रंशम सलोच्य विरक्तों वनगमदुर्गुरशापेन चंडा लकमस अंतराल कौशिकस्य कौशिक प्रसाद हरिश्चंद्रपुत्रदानने विलंब्धिपीड़िद क्रीत्वा दत्त्वा शुनशेवं वरुणायागमत्पदम् इन्द्रसगरमुक्ताश्वं गृह्णन् कपिलसन्निधौ बबन्धर्सागरा दृष्ट्वा तमाकृष्य मदोद्धताः भगीरथस्वर्गलोकात् गङ्गामानीयसागरान् भस्मीभूतान् समुज्जीव्य स्वर्गस्था न करोन्मुदा सौदा सो मूलकस्त्रिया कड्वाङ्गोदेव कृत्वा तैरर्पितान्वरान् चिरत्कृत्य हरिं स्मृत्वा तमे वापप्रशान्तधीः रावणादिविनाशाय ब्रह्मणा प्रार्थिदोहरिः सूर्यवंशे दाश्च रथिश्च दुर्धा वाधरत् स्वयं चक्रे तेषाम् नाम कर्मवसिष्ठप्रीदमानसः रामश्च लक्ष्मणश्चेदि शत्रुघ्नभरदाविधि हत्वा रक्षोगणन्यज्ञं विश्वामित्रस्य पालयन् भुङ्क्त्वा धनुप्राच्य सीतां प्राप भार्गवजित्पुरं भरदे केकयपुरं गते रामो वरद्वयं श्रुत्वा सीतालक्ष्मणाभ्यां राज्यं त्यक्त्वा वनं गतः लोकान्तरं गदे राज्ञि भरतश्चित्रकूडकम् राममानेतुमागत्य गृहीत्वा पादुकां ययौ अत्वा विराधम् रामोऽपि शरभङ्गाद्यनुग्रहं कृत्वा गोदावरीतीरे पञ्चवट्यामुवासः व्यरूपयच्छोर्पणाखान् देन वधीत्कृधा रावणः सह मारीचो रामाश्रममोपाययौ मायया लक्ष्मणं रामं मारीचेनाश्रमाद्बहिः निर्गमय्यफरं सीता रावणः पुरमागमत रामशून्याम् पर्णशालाम् दृष्ट्वा शोकसमन्वितः दत्त्वा जडायुषे मुक्तिं कबन्धमवधीत् खलम् दत्त्वोत्तमां गतिम् तस्मै शबरी मोक्षधप्रभुः सख्यं सूर्यकुमारेण कृतवानग्निसन्निधौ निहत्य वालिनम् सङ्ख्ये सुग्रीवमभिषिच्य अन्वेषणार्थं सीताया प्रेषयामास वानरान् सम्पादिवचनादब्धिं हनुमानतरत्सुखी लङ्कां गत्वा शोकवने दृष्ट्वा देवी ममोद आश्वास्य रामचरितवर्णनेन सुदुःखितम् गत्वाङ्गुलीयकं तस्यै प्रासादं प्राप्य निर्ययौ भुङ्क्त्वा शोकवनं हत्वा राक्षसान् राक्षसेश्वरं तिरस्कृत्याग्निना लां दग्ध्वा रामान्तिकं ययौ विज्ञायसीतावृत्तान्तं रामो वानरसंवृदः विभीषणं चानुगृह्य सिन्धौ सेदुमचीकरद सागरं सेदुना तीर्थ्त्वा लङ्कामाक्रम्य राघवः अवधीद्रावणं युद्धे ससैन्यं देवसन्नुदः वक्दं विभीषणं राज्ये स्तपयित्वा रघोद्वह जानकीं नियताचारां सम्प्राप्य मुदितो ब्रह्मादिभिस्तुतो दृष्ट्वापितरं कपिराक्षसैः संयुधः पुष्पकारूढश्चायोध्यां पुनरागमद तपस्विनं महाभागं भरदं प्रेक्ष्य राघवः आलिङ्ग्याश्रूणि मुमुचे गुरुं भरतप्रार्थितो रामसीदया सहितप्रभुः अभिषिक्तोऽवसिष्ठेन विरेजे मखवानिव तस्मिन् राज्ये जना सर्वे परमानन्दपूरिताः रामं सदा कीर्तयन्तो बभूवुश्चिरजीविनः तिष्ठ्वा यज्ञैपुत्रवांश्च चरि ं पावनाशनं प्रथयित्वा निजं भूमौ पुनरापसः वसिष्ठशब्दस्य निमेर्देहान् मदनजसुदः जनकस्तस्य वंश्या वै प्रकीर्तिताः पुरुरवाश्चन्द्रपौत्रः सहोर्वश्या विहृत्य वै षट्पुत्रान् जनयामास गाधेस्तद्वंशजो नृपः गाधे, गाधे सुधां सत्यवतीं रुचेकप्राप्य मन्द्रिधम् चरुम् पुत्रार्थमुत्तमम् भ्यां चरोर्व्यत्यये नाशनाद्विप्रस्तुगाभिजः ऋचिकपौत्रो रामस्तु हरेरंशादभूत् बली यो हत्वादौ कार्तवीर्यं सर्वान्रज्ञस्व तेजसा रक्त ह्रादान्विनिर्माय शन्दो पितृवाक्यदः इन्द्रीभूतोऽपि न पुषः शब्दो भक्त्येन कामुकः तस्य पुत्रो यया दिर्वै समरक्षद्वसुन्धराम् तस्य भार्ये देवयानि शर्मिष्टे द्वे बभूवधुः ताभ्याम् पञ्चाभवन्पुत्राः कनिष्ठ पितृसम्मतः अकालजाम् पितृजराम् यः पुरुः शुक्रचापजां गृहीत्वा यौवनमदा दुष्यन्तस्तस्य वंशजः दृष्ट्वा कण्वाश्रमे कन्यां दुष्यन्तस्तु शकुन्तलां गान्धर्वविधिना पूर्वं गृहीत्वा पुरमागतम् धिकृत्य पश्चात्तां साध्वी मधिक्षिप्तस्तया पुनः वाण्या शरीरया प्रोक्तस्ताम् स्वीकृत्य मुदं ययौ रन्दिदेवप्रणापाद कालेऽप्यतिथिपूजनाद शाश्वतम् लोकमापह्नः परमानन्दमागमद यदुवंश्येतुजादस्य वसुदेवस्य भाग्यतः पुत्राणां चरमोष्टानां हरिराविरभूत् स्वयम् स्वस्याप्याश्चर्यजनकम् भूषणानां च भूषणं मोहकं मन्मथस्यापि रूपं सञ्च गृहे हरिः चोरादिकानपि जनान् वशीकृत्य सुखप्रदं यशो विस्तारयामास मङ्गलं पापनाशनं दिव्यलावन्यनिधिना रूपेणात्यद्भुतेन च चरित्रेण मनःकर्षन् रतिं चक्रे सदां हरिः यदि नवमस्कन्द